गर्गसंहिता खण्डं सिक्स् द्वारकाखण्डम् अध्यायं सिक्स् श्रीनारद उवाच युद्धं विप्रबन्धूनां सदा शीर्भिरभिनन्दिता देवीं पुनर्विप्रवधूः प्रणनाम मुहुर्मुहुः त्यक्त्वा मुनिव्रतं भैष्मि गिरिजा गृहतस्ततः सखालिभिः भी सखीभिश्च निश्चक्रामशनैः शनैः शनै कोडिचन्द्रप्रदीकास्यां भैष्मीं कमललोचनाम् अकस्माद्दृशुर्वीरा सुनिधिं निर्धनाय यौ अश्वारूढाश्च रथिनो गजिनश्च पदादयः समागदा रक्षिणस्ते मुमुहुर्वीक्ष्य रुक्मिणीं तदपाङ्गस्मितैस्तीक्ष्णैः बाणैः कामधनुच्युतैः उज्झितास्त्रा निपेधुकावर्धिता सैनिकास्तदा रतेन वायुवेगेन खण्डामञ्जीरनादिना नैः नाधिपदाकिना शीघ्रम् स्वसैन्य सङ्घट्ट तत्सैन्यं संविदारयद वायुर्यद्धा पद्मवनम् हरिर्दारुकसारथिः स्त्रीकदम्बकमेत्याशुपश्यदाम् द्विषदाम् प्रभुः समारोप्य रथम् भैष्मीं तार्क्ष्य पुत्रः देवानां पश्यतां राजन् राजकन्यां जगारः दिव्यं शस्त्रोत्तमं शार्ङ्गं धनुष्टङ्कारयन्मुहुः तदो वेगेन महदा स्वसैन्यं च गदेहरौ देवदुन्दुभयो नेदुर्यदुदुन्दुभयस्तदा सिद्धाश्च सिद्धकन्याश्च श्रीकृष्णस्य रथोपरि हर्षिदा ववृषुर्देवाः पुष्पैर्नन्दनसम्भवैः ततो ययौ जयारा वै शनै रामयुदो हरिः शृगालसङ्घमध्या च केसरी भागहृद्यथा तदा कोलाहले जादे रुक्मिणीहरणे सदि बभूव रक्षकाणां च शस्त्राशस्त्रि परस्परम् जरासन्धवशा सर्वे मानिनो नृपसत्तमाः नसेहिरे स्वाभिभवं हिरे स्वाभिभवम् परं जातं यशः क्षयम् अहो धिगस्मान् स्वयस्यो हृदम् गोपैश्च धन्विनाम् श्रृगालैरिव सिंहानाम् अध स्यात् पराजयः एवमुक्त्वा क्रोद्धपरा जगृहुशत्रसंहितिम् संहतिं विसृज्य क्रीडनाक्षादीन् दंशिदा सैन्यसंयुताः अक्षौणी द्वयेनापि पौण्ड्रक्रोधपूरिदः अक्षौहिणी त्रयेणाभि महावीरो विदूरथः अक्षौहिणी पञ्चयुधो दन्तवक्त्रो दिदारुणः अक्षौहिणी त्रयेणाशु शाल्वो राजपुरेश्वरः क्षौहिणीभिर्दशभिर्जरासन्धो महाबलः आयय्यौ सम्मुखे योद्धुम् यादवानाम् महात्मनाम् अन्येऽपि चैव्यपक्षीया योद्धुम् श्रीकृष्णसम्मुखे पस्ते तस्ते समाजग्मुस्सहस्रशः प्रलयाब्धिसमम् सैन्यं समालोक्य यदुत्तमाः तर्तुमा जग्मुराराते कृष्णकैवर्तपोतकाः बभूवतु मुलम् युद्धमद्भुतम् रोमहर्षणम् सैन्ययोश्च स्वपरयोर्देवदानवयोर्यथा रथिनो रधिभिस्तत्र पत्तिभिः सहपत्तयः गजा गजैर्युयुधिरे तुरगाश्च तुरङ्गभैः शस्त्रान्धकारे सञ्जाते रुक्मिणीम् भयविह्वलाम् विलोक्य भगवान् देवो मा भैष्टेत्यभयम् ददौ बलदेवानुजो वीरो गदो धुन्वमहद्धनुः विवेशत्रु सङ्घट्टं वनं वह्निरिव प्रभुः गदबाणविभिन्नाङ्गा रथिनश्चिह्नकञ्चुकाः हदाश्वागदसुधाश्च निपेदुर्भूमिमण्डले पदा गदबाणा गतव्यथाः निपेदुर्भूदले राजन्वृक्षा वादहदा अश्वारूठा केऽपि विरा गदबाणैर्विदारिताः के दूरणाङ्गणेशाश्वा बृहती फलवन्नृप गदबाणैर्भिन्नकुम्भा मध्ये मध्ये विदारिताः विरेजुपदिता भूमौ कूष्माण्डशकला इव पदपला इदं सैन्यं दृष्ट्वा शाल्वो महाबलः गदं तदा डगदया गदा युद्धविशारदः गदा विद्धो गदो धन्वी गदा युद्धप्रभावविद धनुर्योद्धं तु सन्त्यज्य तत्कालान्मनसा त्वरं परां व्यधां गदे तदाग्रजेन या दत्ततां गदातु गदो ग्रहीत लक्षभारमयी गुर्वी दृढा कौमोदकी तया गदोहनचाल्वं वज्रेणेन्द्रो यथा गिरिं गदा प्रसारमधिदे चाल्वे निपतिते भुवि पौण्ड्रकोधजरासन्धो दन्दवक्त्रो विदुरधः चत्वार आयुस्तत्र गदोपरि रुषान्वितः पौण्ड्रकोऽपि महावीरो गदस्य रथगं ध्वजं चिच्छेदशभिर्बाह्णै कुवाक्यै मित्रतामिव दन्दवक्त्रस्तु गदया गदस्याभिरद्धम् शुभम् चूर्णयामास राजेन्द्रदण्डेनेव समुद्धृडम् चूर्णयामास राजेन्द्रदण्डेनेव सुमृद्धडम् प्रधांश्च विदूरदः पादयामास तदो मुसलमादाय बलदेवस्त्वरन् बली विकराले मुखे भीमे दन्तवक्त्रमदाडयद तदो मुसलपादेन दन्तवक्त्रस्य युद्भ्यदः मुखे वक्रो गीयो दन्तसदुभौमौ पपादः तदा हस्तिदैत्यारौ रुक्मिणीसहिदेहरौ पौण्ड्रकं च जरासन्धं तथा दुष्टं विदूरथं जखानमुस्सुले जखानमुत्सलेनाशु बलदेवोरुषान्वितः त्रयोपि पतिता युद्धे मूर्च्छिदाः क्षतजाप्लुदाः सेनां समागतां सर्वं समाकृष्य हलेन वै मुत्सलेनाघनक्रुद्धो बलदेवो महाबलः दशयोजनपर्यन्तं रथेभ्याश्वपदादयः पेषिताश्चूर्णिता भूमौ शयनाधरणीं गदाः चरा सन्धाभय सर्वे मृत्युशेषा नृत्वा परे पलायिता शैत्यमेद्य प्रोजुर्नष्टोत्सवं भो भोः पुरुषशार्दूलदौर्मनस्यमिदं त्यज किमेकेन विवाहेन भविदादेशदं भुविम् अद्यैव द्वारकां गत्वा बद्ध्वा रामं समाधवम् अयादवीं करिष्याम पृथ्वीं सागरमेखलां येवं सम्बोधितो मित्रैश्चैद्यो गाचन्द्रिकापुरम् ययुः स्वं स्वम् पुरम् सर्वे पदशेषा नृपास्तदः इति श्रीगर्गसंहितायाम् द्वारपाखण्डे श्रीनारदबहुलाश्वसंवादे रुक्मिणीहरणे यदुविजयो नाम षष्ठोऽध्यायः ओ अध्यायम् श्री श्रीनारद उवाच रुक्मिण्याकरणम् श्रुत्वा मित्राणां च पराभवम् प्रतिज्ञाम् अकरोत् रुक्मी शृण्वताम् सर्वभूभुजाम् अकत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् कुण्डिनं च प्रवक्ष्यामि कुण्डिनं न प्रवक्ष्यामि सत्यमेतद्ब्रवीमि वः इत्युक्त्वा कवचं दिव्यङ्कनमम्बुदनिर्मिदं शिरस्त्राणां सिन्धुजं च सददार महोद्भटः सौवीरस्य धनुशालिलाडजं चेशुधिद्वयम् आदाय्यम्लेच्छ देशस्य घड्गं चर्म च कौडजं जेठरस्य महाशक्तिं गुर् जराडभवां गम् परिकम् वङ्गजम् धृत्वा हस्त्रत्राणां च कौङ्कणम् बद्ध गोद्धाङ्गुलित्राणकिरीडीरत्नकुण्डलः रुक्माङ्गदस्तदा रुक्मि युद्धम् कर्तुं मनोदधे जैत्ररद्धं समारुह्य चञ्चलाश्वनियोजिताम् पृष्टतोऽन्वगमत्कृष्णम् कर्षन्नक्षौहिणीम् द्वयम् पुनः समागतम् दृष्ट्वा सेनां रामो महाबलः तया युयोधसमरे यदुसेनासमन्वितः तिष्ठतिष्ठेदि देवेशं विसृजन् परुषं वजः सम्प्राप्नोदिरथम् रुग्मि धनुष्ठङ्कारयन्मुहुः त्वरं मुञ्जस्व मे यदि जीविदुमिच्छसि न चेत् त्वां सबलं सद्यो नयामि यमसाधनं ययादिशापसमृष्टो गोपालोच्छिष्ट भु भवान् चरासन्थभयाभीतो यवनाघ्रात् पलायितः युत्युक्ते शुधितकृष्णबाणं चापे निधाय सः नियम्य कर्णपर्यन्तं निजखानहरेर्हृदि सन्ताडितोऽपि भगवानन्तनुर्ज्यां तस्य नादिनीं चिच्छेदसाय केनाशु गरुडपन्नगो यथा निधाय शीघ्रं कोदण्डं शिञ्जिनीं स्वर्णभूषितां रुक्मिदुदशभिर्बाणैः सञ्जानहरिम्रणे हरिरेखेन बाणेन शिञ्जिनी सहिदं धनुः चिच्छेद रुक्मिण सद्यो ज्ञानेनेव गुणमयम् कृष्णो मोखेन बाणेन मध्यतस्तान् द्विधाकरोद रुक्मिणं तुषदैर्बाणैर्सं रुक्मिणं तुशदैर्बाणैः सं तदाडमृधे हरिः खिन्नधन्वाद वैदर्भो महाशक्तिं स्फुरत् प्रभाम् प्राकरद्धरये शकृं विज्ञानाय यथा मुनिः तदा डगदया तां गदाग्रजः गदा द्विधा भूदा महाशत्री रुक्मे सूतं जखानः कौमोदकी गदा गुर्वी पतन्ती वेगधारिणी तद्रथं चूर्णयामास साश्वं शैलं यथा पविः प्राकरद्धरये सोऽपि गदाम् स्वाम् भीष्मकात्मजः चक्रेण चूर्णयामास भगवानपि ताम् पुनः परिखम् वङ्कजम् नित्वा रुक्मि रुक्मां गदो बली जखानश्रीहरिम् स्पन्धे जगर्जखनवन्मृधे सन्ताडितोऽपि भगवान्मालासद इव द्वीपः तेनैव परिखेणापि तं जघानरणाङ्गणे परिकाभिकदोरुक्मी किञ्चिद्व्याकुलमानसः वत्सयन् माधवम् ह्याजौ जग्राह खड्गचर्मणि तद् खड्गं चर्मणा चित्वा स्वखड्गम् हरब्धरिः खड्गाग्रेण शिरस्त्राणम् कञ्चुकम् चिच्चिदे महद हस्तत्राणेऽपि युगपदेते चिन्निकृते मृधे खड्गमुष्टिपरम् दृष्ट्वा रुक्मिणम् समुपस्थितम् गृहीत्वा भुजदण्डाभ्याम् पादयित्वा महीतले तस्योपरि यथा सिंहो मृगोपरि शितधारं नन्दकाख्यं खड्गं जग्राहरोषधः दृष्ट्वा भ्रातृवधोद्युक्तं रुक्मिणीभयविह्वला पतित्वा पादयोर्भर्तुरुवाचकरुणं सदि श्रीरुक्मिण्युवाच अनन्ददेवेश जगन्निवासयोगेश्वराचिन्त्य जगत्पदे त्वम् हं तुं न योग्यकरुणा समुद्र मध्राधरं शाल भुजं महाभुजं श्रीनारद उवाच परित्रासैर्विलपतीं दुःख शुष्यन्मुखीं प्रियां रुद्धखण्डीं सदीं वीक्ष्यन्यवर्धत हरिस्वयं बध्वा तं कडिबन्धेन खड्गेन शितधारिणा वपनं श्मश्रुगेशानाम् चकारार्थमुखे हरिः अक्षौहिणी द्वयं जित्वा रामप्राप्तः ससैनिकः बद्धं विरूपिणम् दीनं रुग्मिणन्तु ददर्शः विमुच्य बद्धं सदहप्राह निर्भर्सयन् हरिम् असाद्विधम् त्वया कृष्णकृतं लोक जुगुप्सितं हास्यं वैशालि भद्राणाम् चैतादृशम् भवेद यस्या सहोदरे मुख्य विरूपे त्वया कृते किं वदिष्यति सापि त्वाम् भ्रादुर्वैरूप्य चिन्तया मा शोकम् कुरु कल्याणि स्वस्ता भव चिस्मिदे। आर्यपुत्रिमहाबुद्धे महाबुद्धे। शोकम् कुरु दुर्मः सर्वकालकृद मन्ये प्रियमप्रियमेव वा वायोर्खनावलिरिव वशे जगद तं कालमीश्वरं विद्धि विष्णुं कलयतां प्रभुम् अहं मेदि भावोऽयं जगदो बन्धकारणं ताभ्यां विरहिदो भावो मोक्ष एव न संशयः सुखदुःखप्रदो नान्यपुरुषस्यात्मविभ्रमः मित्रो दासीन रिपवः संसारतमसा कृताः एवं रामेण देवेन बोधितो भीष्मकात्मजः वैमनस्यं मनस्यं परित्यज्य रुक्मिणी जयययौ मुदं रुक्मीदु ताभ्यामुत्सृष्टो विदधात्ममनोरथः स्मरन् विरूपकरणं तपसेसे से वारिदो मन्त्रिमुख्यैश्च कुण्डिनं न गध पुनः चक्रे भोजकडं नाम निवासाय पुरं परं रुक्मिण्या सह गोविन्दसरामो यदुभिर्वृदः द्वारकाम्रययौराजनादयञ्जयदुन्दुभीन् जादे महोत्सवे पुर्यां रुक्मिणीं रुजिराननाम् उभय विधानेन मार्गशीर्षे हरिस्वयम् हरेर्विवाहे सदि रुक्मिणीपदे श्रीरुक्मिणी भूषित रुक्ममन्दिरा पुरन्तरस्यापि यथा मरावति द्वारवती पुण्यवती तथा बभौ भैष्मीविवाहस्य कथां विचित्रां शृणोदि य श्रावयते इहैव भक्तो विभवेन युक्तः स प्रदियादिमुक्तः यदि श्री गर्गसंहितायाम् श्रीद्वारकाखण्डे श्रीरुक्मिणिविवाहो नाम सप्तमोऽध्यायः ओम् अध्यायम् एय् श्रीनारद उवाच अन्यासाम् कृष्णपत्नीनाम् मङ्गलम् शृणु मैथिल सर्वपापहरम् पुण्यमायुर्वर्धनमुत्तमम् सत्राजिदाय सूर्येण दत्तः साक्षात्स्यमन्तकः उग्रसेनाय स मणिं श्रीकृष्णेनाभियाजिदः सत्राजिदस्तम् न ददौ द्रव्यलोभेन मैथिल दिने दिने स्वर्णभारा नष्टौ यसृजदि स्वदः अध प्रसेनस्तभ्रादमणिम् कण्ठे निधाय सः स इन्थवं हयमारुह्य मृगयां व्यजरध्वने सिंहेन सिंहो जाम्बवदाहदः गृहीत्वा तं मणिं सद्यो जाम्बवान् स्वगुहां गतः कृष्णेन निषदो भ्राधामणिग्रीवो वनं गदः नायादस्वसभामध्ये यदि सत्राजिदो भगवान् दुर्यशोलिप्तो नागरैस्तुवनम् गतः प्रसनमश्वं सिंहं च हन्तप्रेक्ष्य महामदे वृक्षराजबिलम् बिलंगत्वा मणिं हर्तुम् स्वयं हरिः युद्धम् कृत्वाष्ट बिंशाहमजय दृक्षनायकम् ेन दत्ताजाम्भवदि हरये कन्यकाशुभा मणिना सह राजेन्द्रद्वारकामाय यौ हरिः सत्राजिताय प्रददौ मणिं निर्लाञ्छनः प्रभुः वाङ्मुखो भीदो राजा सत्राजिदो मणिं गृहीत्वापि पुनस्तस्मै श्रीकृष्णाय महात्मने सत्यभामाम् सुगाम् प्रादात् चान्त्यर्थम् मैथिलेश्वर पाण्डवानाम् सहायार्थमिन्द्रप्रस्थम् गतो हरिः तत्र वैवार्षिकान् मासान्यवाचीत् बन्धुवत्सलः त्यगदारथमारुह्य हरिर्गाण्डीविनाशख सुनीरे यमुनाधीरे मृगयार्थी विनिर्ययौ तपश्चरन्ती कालिन्दी श्रीकृष्णम् वरमिच्छति दर्शिता पाण्डवेनापि ताम् गृहीत्वा जगामः द्वारकामेत्यकालिन्दीम् सूर्यकन्याम् मनोहराम् उभय मे विधानेन वितन्वन्मङ्गलम् परम् आवन्त्य राजतनुजाम् मित्रविन्दाम् मनोहराम् स्वयम् वरेताम् जघार भगवान् रुक्मिणीं यथा नग्नजित्कन्यकां सत्यां दमित्वा सप्त गो वृषान् पश्यतां सर्वलोकानामुपये मे हरिस्वयं कैकेयराजतनुजां भद्रां तु भगवान् हरिः पालिन्दीमिव तां शश्वदुपये मे बृहत्सेनसुधाराजन्लक्ष्मणाम् लक्षणैर्युदाम् चित्वा मत्स्यमरीम् जित्वा जग्राहभगवान् हरिः तथा षोडच साहस्रम् शतम् च नृपकन्यकाः भौमम् हत्वा तासा ता मुहूर्त एकस्मिन् अनागारेषु योषिताम् सविधं च गृहे पाणिन्नारूप स्वमायया कृष्णस्य पुत्रान् दश दश बलाः जनन्न नवमान् पितुः सर्वात्मसम्पदा रुक्मिणीभ्याम् भीमकन्यायां प्रद्युम्न प्रथमो भवद कामदेवावतरोऽयं लक्षणः शबरो निर्दयस्थोकम् हत्वाब्धौ तं समाक्षिपद मत्स्योदरे गदसो भिन्नममारहरे सुधः निर्गदो सौभार्यया परिपालितः ज्ञात्वा शत्रुकृतां वर्तां स कार्ष्णीं रूढयौवनः हत्वा तं शम्बरम् शत्रुम् भार्यया वरयायुधः द्वारका मायौराजं चित्रम् कर्म च तस्य तद् सरुक्मिणो दुखिधरम् हृत्वा भोजकडात् पुराद स्वयंवरस्थलाद्राजन्नुभये मे महारथः तस्मात् सुधो निरुद्धो भून् नागायुधबलान्विदः सुरज्येष्ठावतारोऽयम् शारदेन्दीवरप्रभः चतुर्व्यूहावतारस्य परिपूर्णतमस्य हि एवम् विचित्रम् चरितम् विवाहानाम् सुमङ्गलम् सर्वपापहरम् पुण्यमायुर्वर्धनमुत्तमम् मयादेकथितम् राजन् किम् भूय श्रोतुमिच्छसि यदि श्रीमद्गर्गसंहितायाम् श्रीद्वारकाखण्डे सर्वमहेष्युद्वाहो नामाष्टमोऽध्यायः ओ अध्यायम् नयन् बहुलाश्व उवाच त्रिषु लोकेषु विख्याता धन्या वै द्वारका पुरी परिपूर्णतमः साक्षात् श्रीकृष्णो यत्र श्रीकृष्णस्याङ्गसम्भूद पुरी द्वारा वदी श्रुदा कस्मादिहा गदा ब्रह्मन् कस्मिन काले वद प्रभो श्रीनारद उवाच साधु साधु त्वया द्वारका गमकारणं यच्छुत्वा शुद्ध्यदाव्यादिलोकखात्यपि बातगी शर्यादिर्नाम राजा भूचक्रवर्तीमनोसुदः चकारराज्यं धर्मेण वर्षाणामयुदम् भुवि उत्थानबर्घिरानर्तो भूरिषेण इति त्रयः शर्यादेरभवन्पुत्र सर्वधर्मभृदाम्बराः उत्तानबर्घिषे पूर्वां भूरिषेण यदक्षिणा पश्चिमाम् च दिश्यम् सर्वा मानर्ताय ददौ नृपा ममेयम् हिमही कृत्स्नामया धर्मेण पालिता बलार्जिता बलिष्ठेन यूयम् ताम् पालयिष्यध पितुर्वच समकर्ण्य आनर्तो मध्यमसुतः ज्ञानी ज्ञानमयम् वाक्यमुवाच प्रहसन्निव आनर्त उवाच तवेयम् न मही कृष्णा त्वया पालिता क्वजिद न त्वद्बलार्जिता राजन् बलिष्ठो भगवन् विभुः मही श्रीकृष्णदेवस्य तेनैव परिपालिता तत्तेजसा जिदा कृष्णा बलिष्ठो न हरेः समः स एव विश्वम् स्वकृतम् सृजत्यक्ति च पाति प्रभुः योऽन्तप्रविश्यभूतानि भूतैरप्यखिलाश्रया स विश्वाख्योऽधि यज्ञोः सौ परिपूर्णतमः स्वयं यद्भयाद्वादिवादोऽयं सूर्यस्तपदि यद्भयाद् यद्भयाद्वर्षदे देवो मृत्युश्चरति यद्भयाद् परिपूर्णतमं साक्षात् श्रीकृष्णम् परमेश्वरं भज सर्वात्मना राजन्नहङ्कारविवर्जितः नारद उवाच ज्ञानं प्राप्तोऽपि शर्यादिराक्षिप्तपुत्रवाक्षरैः अनर्थं स्वसुतम् प्राकरुष प्रस्फुरितादरः चर्यादिरुवाच दूरं गच्छ असद्बुद्धे गुरुवद्भाष्यस्ये कथम् यावद्भूतम् तु मे राज्यम् तावत् त्वम् मा महीं वत्स यस्त्वया राधित कृष्णसोऽपि सर्वसहायकृत नवीनाम् किम् महीम् देव वै भगवानेव दास्यति नारद उवाच इत्युक्तस्तु तदानर्तो राजानम् प्राहमानदः यत्र तेजमहीराज्यम् तत्र वासो न मे भवेद पित्राणि निःसारितो राज्ञा प्यानर्तोधितडम् गतः वेलमेत्यतपत्तेपे वर्षाणामयुदम् जले प्रेमलक्षणया भक्त्या सन्तुष्टो भगवान् हरिः तस्मै स्वम् दर्शनम् दत्वा वरम् ब्रूहेत्युवाचः कृताञ्जलि पुडो भूत्वानर्त उद्धाय शीघ्रदः न नाम रोमां ची प्रेमविलः आनर्त उवाच नमस्ते वासुदेवाय नमः सङ्घर्षणाय च प्रद्युम्नायानिरुद्धाय पदये नमः पित्रा निष्कासिदो देवत्वमहं शरणाङ्गतः देहि मह्यम् भूमिमन्याम् यत्र वासो हि मे भवेद धूवो वि यत्प्रसादेन ययौ सर्वोत्तमं पदं तस्मै नमो भगवते प्रणतक्लेशहारिणे श्रीनारद उवाच आनर्तमानदं दीनं भगवान् दीनवत्सलः प्रसन्नश्रीमुखे नाहमेकगम्भीरया गिरा श्रीभगवानुवाच अन्यानमे दिनीलोके किं कर्तव्यं मया स्ववच्चस्तदृदम् कर्तुम् त्वद्भक्त्या परितोषितः तस्माद् दैवस्य लोकस्य वैकुण्डस्य परन्तप भूखण्डम् योजनशदं ददामिविलम् शुभम् श्रीनारद उवाच इत्युक्तुवानर्थनृपदिम् भगवान् भक्तवत्सलः वैकुण्डा च समुत्पाट्य भूखण्डशदयोजनम् चक्रं सुदर्शनं धृत्वा समुद्रे भीमनादिनी भीमनादिनि दधार देव सस्यो देवस्तस्योपरि विदेहराड लक्ष लक्षवर्षान्तं तत्र राज्यं चकार पुत्रपौत्रसमायोक्तो राजन्वैकुण्ठसम्पदम् इदं श्रुत्वा दशर्यादि पिता वै विस्मितो भवद र्थो नाम देशो भूदानर्थस्य प्रसादतः रेवतस्तस्य पुत्रो भूच्छीशैलस्य गिरे सुदम् समुत्पाट्य स्वहस्ताभ्यामानर्थे शून्यपादयद सोऽभूद्रेवता सोऽभूद्रेवत नाम्नाभिरैवतो नाम, नाम पर्वतः कुशस्थलीं विनिर्माय राज्यम् कृत्वा धरैवदक समादाय स्वकां कन्यां ब्रह्मलोकम् जगामः बलदेवविवाहोऽपि बलदेवविवाहेऽपि तत्कथा कथिता मया तस्माद् द्वारावधिम् पुण्यमोक्षद्वारां विदुःसुराः इति श्रीमद्गर्गसंहितायाम् श्रीद्वारकाखण्डे द्वारकागमनकारणम् नाम नवमोऽध्यायस ओ अध्यायम् टेन् श्रीनारद उवाच युद्धम् मया दे कथितम् द्वारकागमनकारणम् सर्वपापकरम् पुण्यम् किम् भूय श्रोतुमिच्छसि बहुलाश्व उवाच सर्वतीर्थमयी भूमिर्द्वारका नगरीशोभा तत्र मुख्यानि तीर्थानि वद मां मुनिसप्तम श्रीनारद उवाच आ प्रभासा तीर्थमयी मर्यादीकृत्य यज्ञीयाम् भूमिर्मोक्षप्रदा राजन द्वारका योजनैषदम् द्वारकाम् नगरीम् दृष्ट्वा नरो नारायणो भवद द्वारकाया मृदकोऽपि गर्दभोपि चतुर्भुजः पश्यन् शृण्वन् कथाम् तस्या द्वारकेदि वदन् क्वचिद दष्टा दद्यातृणम् दा मृत्युम् गतो याति पराम् गदिम् यगदारैवदम् भक्तम् प्रेमानन्दसमाकुलम् प्रेक्ष्य स्वम् दर्शनम् भवद तन्नेत्र बिन्दुसम्भूता गोमती सा महानदी यस्या दर्शनमात्रेण ब्रह्मगत्या प्रमुच्यते गोमतीरजम्बुण्यं रजो यो धारयन्नरः स्नानकाले गोमतीति वदत्यपि नरक्वचिद मकरस्ते रवौ माघे प्रयागे स्नानमाचरेद शताश्वमेधजं पुण्यं सम्प्राप्नोति विदेसराट तत्सहस्रगुणं पुण्यं गोमत्यां मकरे रवौ गोमत्याश्चैव माहात्म्यं वक्तुं नालं च दुर्मुखः गोमत्यां चक्रतीर्थेषु पाषार्ण निचयाश्च ये ते सर्वे चक्रदां पूजनीयः प्रयत्नतः चक्रचिह्ने चक्रतीर्थे द्वादश्यां स्नानमाचरेद चक्रपाणिपदं व्याधिपानां भाजनोभिः कोटिजन्मकृदै पावैपतितो योगिपादकी चक्रतीर्थस्य सोपानमेत्यमुक्तिम् समारुहेत बहुला शु उवाच गोमत्यां हिमहानद्यां चक्रतीर्थं शुभार्धदम् कथम् जातम् बहुमदम् तन्मे ब्रूहि महामदे श्रीनारद उवाच अत्रैवोदाहरन्तीममितिहासम् पुरातनम् यस्य श्रवणमात्रेण पापः निः अलकेशो अलगेशो राजधीशो धर्म भृत्भु वैष्णव यज्ञे कैला ते स्वयं विष्णुरागदो वै स्वधाम मद ब्रह्मा शिव जंभेदी वरुणो याद सांपदी वायुर्यमूल सोम क्षिधिसजने गन्धर्वाप्सरससिद्धा सर्वे तत्र समायेयुः देवर्षयः ब्रह्मर्षयो नृप धनाध्यक्षो भवत्तस्य पुत्रस्तु नलकुबरः रक्षायाम् वीरभद्रोऽभूत् सत्सेवायाम् गजाननः यथा मरुद्गणा सर्वे परिवेषणकारिणः धर्मतत्परः सभा पूजामकरोद्धर्मतत्परः खण्डनादः पार्श्वमौलिकुबेरस्य धुमन्त्रिणः सर्वशास्त्रविदाम् श्रेष्ठौ धनाध्यक्षौ बभूवधूः एवम् हि विधिवद्यज्ञो बभूव परमोत्सवः अध्वरा बभृदस्नादो राजराजो महामनाः परं भागं च देवेभ्यो विभ्रेभ्यो विप्रेभ्यो दक्षिणामदाद एवं पूर्णे ध्वरे मुख्ये तुष्टे देवर्षि देवर्षिसप्तमे आजगामाध दुर्वासा दण्डी छत्री जडाधरः क्रोधी कृषत् पादुकाङ्घ्रिर्दीर्घश्मश्रु हृदोदरः कृश्योदरः दर्भासनसमित्पात्रमृगचर्मधरपरः समागतं समागम्य पूजयित्वा विधानदः भयभीदपरिक्रम्य कुबेरप्रणनामः अद्य मे सबलं जन्म सबलं मधिरं च मे अद्य सबलो यज्ञो ब्रह्मं स्तोयागदे सदि युद्धं सन्तोषिदस्तेन दुर्वासा भगवान् मुनिः देवमनुष्यधर्माणं प्राह प्रहसिदाननः त्वं धर्मात्मा दानी विप्रपरायणः पृदस्ते वैष्णवो यज्ञो विष्णुः सन्तोषकारणः न याचिदो मया त्वम् वै क्वापि वैश्रवणप्रभो अद्यैव याचनं गुर्वे ज्ञात्वा ताम् दानि सत्तमम् मध्याञ्जां दास्यामि सत्वरम् नो चेत् त्वां भस्मसत्कुर्वे शाभेनादिभयेन वै वरुदन्धे त्वद्गृहे सर्वे त्रैलोक्यनिधयो नव तन्मे प्रयच्छ भद्रन्दे तदर्थं गतवाहनं नारद उवाच यदश्रुत्वा राजराजो दानशील उदारधीः ॐमिति प्रदि निधिन् प्रदास्यन्दं दानाध्यक्षो निधीश्वरं खण्डनादपार्श्वमौलि रुच दुर्लोभमोहित द्वावोचतुः एकोऽयं ब्राह्मणो लोभे निधिभिक्किं करिष्यदि लक्ष्यं दिव्यं देहि चास्मै वृत्तिं रक्ष तथोत्तरा नारद उवाच तद्वजपरिषम् श्रुत्वा दुर्वासक्रोधविग्रहः भ्रू भङ्गकुटिलीभूते रक्तनेत्रे चकारः स्थालीव सर्वब्रह्माण्डम् च चालनिमिषद्वयम् प्रणदम् धनदम् वीक्षताभ्याम् शापम् ददौ मुनिः मुनिरुवाज खण्डानादमः दुष्टं पापबुद्ध्यधिलुब्धग ग्राहवत्त्वं धनग्राहि ग्राहो भवमहाफल पार्श्वमौले पापबुद्धे धनलोभमदान्विदः गजवत्प्रेरणां कुर्वं स्त्वं गजो भवदुर्मदे श्रीनारद उवाच ताभ्यां शापं मुनिर्दत्त्वा निधिं कुबेरदः वरं ददौ पुनस्तस्मै दुवासा दुर्लभम् परम् अस्माद्दानाच्च द्विगुणा भवन्तु निधये नव इत्युक्त्वा सनिधिप्रागादहो त्यजीयसाम्बलम् इति श्रीमद्गर्गः संहितायाम् गोमत्युपाख्याने चक्रतीर्थमाहात्म्याः दशमोऽध्यायः ओम् अध्यायम् इलेवन् नारद उवाच कुबेरमन्त्रिणौ दीनौ विप्रशापविमोहितौ तत्र साक्षात् स्वयं विष्णुप्राकृतौ शरणं गतौ श्रीभगवानुवाच मदर्चा संयुधे यज्ञे भवतौ दुःखसंयुतौ ब्राह्मणानां भजोखं वै दूराकर्तुं न च भवदं भवदम् ग्राहमादङ्गौ युद्धं हि युवयोर्यदा तदा वै मत्प्रसादेन प्रकृतिं स्वां गमिष्यधः नारद उवाजा इत्युत्युक्तौ हरिणा तौ द्वौ राजराजस्य मन्त्रिणौ बभूवदौ ग्राहगजौ जातिस्मरणसंयुतौ ण्डा नादो भवद्ग्राहो गोमत्यां च शतं समाः विकरालो महाभीमशश्वद्रौद्रवपुर्धरः पार्श्वमौलिर्गजेन्द्रो भूद्रैव तस्य गिरेर्वने चतुर्दन्तकज्जलाभपृष्टप्रचोदनुशतं वञ्झुलै कुरभै कुन्धैर्बदरैर्वेत्रवेणुभिः रम्भूर्जवडैर्युक्ते कोविदा रासनार्जुनैः मन्दारपाटलाशोकचूदचम्पकचन्दनैः पनःसो दुम्बराश्वर्जूरैर्बीजपूरकैः ये विख्वराद माधवेमासि गजेन्द्रो गिरिविह्वराद स्नादुं ताम्बोमदीं गङ्गामाय ययौ सगणो नदन् करेण कलभान् सर्वान् स्नापयामास महान् ग्राहोऽपि तत्रस्थो बलीयान् दैवनोदितः अग्रहीचरणेनागं क्रोधपूरितविग्रहः तेनैव तद्गृहेणीतो गजेन्द्रो बलदर्पितः समाकृष्य बहि प्राप्तं पुनस्तेन विकर्षितः करेणवश्च कलभास्तम् सन्धारयितुमक्षमः एवं तयोर्युध्यतोश्च कर्षतोर्हि बहिर्मिथः पञ्चाशत् पञ्चवर्षाणि व्यदीयुपश्यतां सदाम् एवं कष्मलमापन्नो गजो जाति स्मरो महान् प्रेमलक्षणया भग्रिया हरिपादभृताशयः सस्मार श्रीहरिम् देवम् मृत्युपाशवशङ्कदः गजेंद्र उवार उवाच श्रीकृष्ण कृष्ण सख कृष्णवपुर्दधान कृष्णायते प्रणतिरस्तु सुरेश विष्णो पूर्णप्रभो परमपावन पुण्यकीर्ते माम् पाहि पाहि परमेश्वर पापपाशाद नारद उवाच एवम् ग्राह गृहीताङ्गम् स्मरन्तम् च हरिम् हरिः ज्ञात्वा रुह्य खगम् वेगा दधावद्दिनवत्सलः स्वयम् खगा समुत्तीर्य धावञ्चक्रम् समाक्षिपद चक्रे प्राप्ते पूर्वमेव ग्राहस्याभिशिरोद्भुतम् दैन्ये प्राप्ते वनमिव देहभिन्नम् बभूवः पश्चात् प्रपदितम् चक्रम् गोमत्याम् जह्रदेन दद पाषाण निचयान् सर्वांश्चक्राकारांश्चकारः तन्नेमि सङ्घर्षभवम् चक्रतीर्थम् शुभावहम् तच्चक्रदर्शनाद्राजन् ब्रह्महत्या प्रमुच्य दे ग्राहच्छिन्नशिरो भूत्वा पूर्वरूपं दधारः श्रीकृष्णानुग्रहाद्धस्ती दिव्यरूपो बभूवसः परिक्रम्य हरिम् नत्वा स्थित्वा देवम् कृताञ्जलि कुबेरमन्त्रिणौ तौ द्वौ जग्मदुःस्वपदम् पुनः देवेषु पुष्पम् वर्षत्सु जयध्वनिम् नदत्सु च जगाम भगवान् साक्षात् स्वधामप्रकृतेः परम् चक्रतीर्थकधामेन यच्छृणोदि नरोत्तमः चक्रतीर्थस्नानफलम् सम्प्राप्नोदि संशयः गजग्राहकथां पुण्यां यशृणोदि समाहितः दुःस्वप्नं नश्यते तस्य दुःसुस्वप्नं भवति ध्रुवम् इति श्रीमद्गर्गसंहितायां श्रीद्वारकाण्डे चक्रतीर्थोत्पत्तौ गजग्राह मोक्षोन्नामैकादशोऽध्याय श्रीनारद उवाच शङ्गोद्धारे तीर्थमुख्ये स्वर्णदानं ददादि यः मगमच्चेद्वैष्णवं लोकं सर्वोपद्रववववववववववववववववववववववर्जितम् श्रीकृष्णभक्तशान्तात्मा त्रितो नाम महामुनिः तीर्थयात्राप्रसङ्गेन प्राप्त आनर्तभूमिषु दृष्ट्वा शुभं सरस्नात्वा हरिपूजां चकारभ तत्पूजायां महाशङ्घं सुन्दरायर्लक्षणायर्वृतं चोरयामास कक्षीवांस्तस्य शिष्यो दिलोभदः पूजाशङ्घं गदं वीक्ष्य क्रुद्ध पूजाशङ्घं गदं वीक्ष्य कुद्धप्राहत्रिदो मुनिः शङ्खो भवदुद्ध्रुवम् तदेव रूपो भूत् कक्षी वाञ्चापीडितः उत्पादयोर्निपतितपाहिमामित्युवाच शीघ्रं शान्तस्त्रितप्राक् दुर्मदे किं कृतं त्वया स्तेय दोषाद्भुङ्क्षपापं मध्वचो नो मृषा भवेद सदे मोक्षं करिष्यति इत्युक्त्वा जगदे राजन् त्रिदे देवे महामुनौ सरोवरे निपतितः कक्षी वाञ्चङ्करूपदृक प्रवदन् कृष्णकृष्णेऽधि चदवर्षम् स्थितोऽभवद परिपूर्णतमसाक्षाद्भगवान्भक्तवत्सलः आगत्य सरसस्थिरमाभैष्टेत्यभयम् ददौ ताम् मेखनादगम्भीरम् गिरम् श्रुत्वा जलेचरः शुक्रोश्च पाहिपाहीति देव देवजगत्पदे भुजगेन्द्र भोगरुजाभुजन भगवान् प्रभुः शङ्गम् भक्तम् गजमिव प्रोज्जहार दयापरः तदैव दिव्यरूपो भूचङ्गरूपम् विहाय सः कृताञ्जलिर्हरिम् नत्वा स्तुतिम् चक्रे यदा च सः कक्षी वानुवज वासुदेव नमस्तेऽस्तु गोविन्दपुरुषोत्तम दीनवत्सल दीनेशद्वारकेशपरेश्वर ध्रुवे ध्रुवपदम् दात्रे प्रह्लादस्यार्तिहारिणे गजस्योद्धारिणे तुभ्यम् बलर्बलिविदे नमः द्रौपदीचिरसन्त्राणकारिणे हरये नमः गराग्निवनवासेभ्यः पाण्डवानां सहायिने यादवत्राणकर्ते च शक्रादाभीरक्षिणे गुरुमातृद्विजानां च पुत्रदात्रे नमो नमः जरा जरासन्धनिरोधार्थनृपाणाम् मोक्षकारिणे नृगस्योद्धिणे साक्षात् सुदाम्नो दैन्यहारिणे वासुदेवाय कृष्णाय नमः सङ्घर्षणाय च प्रत्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः त्वमेव मादाज बन्धुश्च सखा त्वमेव विद्या द्रविनं त्वमेव त्वमेव सर्वम् मम देवदेव श्रीनारद उवाच एवम् स्तुत्वा हरिम् राजन् कक्षीवान् प्रेमपूरितः विमानपरमस्ताय यादवानाम् च पश्यताम् विभ्रा जयन् दशदिशशतसूर्यसमप्रभः जगामवैष्णवम् लोकम् सर्वोपद्रवववर्जितम् शङ्कोद्धारकृतो यस्मिन् हरिणामैथिलेश्वर तस्मात् तीर्थमहापुण्यं शङ्गोद्धारप्रधां गतं शङ्गोद्धारकथामेदां यशृणोदि नरोत्तमः शङ्गोद्धारस्नानफलं लभते वैनसंशयः इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे शङ्गोद्धारमाहात्म्यं नाम द्वादशोऽध्यायः ओम् अध्यायम् तर्टीन् श्रीनारद उवाच प्रभासस्यापि माहात्म्यं शृणुराजन्महामदे सर्वपापहरम् पुण्यम् तेजसां वर्धनम् परम् गोदावर्याम् गुरौ सिंहे हरक्षेत्रे च कुम्भगे रविग्रहे कुरुक्षेत्रे काश्यां चन्द्रग्रहे तथा यत्पुण्यं लभदे राजन् स्नानदो दानदो नरः तस्माच्छदगुणं पुण्यं प्रभास्ये च दिने दिने यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोडुराड विमुखु किल्बिषात् सद्यो भेजे भूय कलोदयम् महापुण्यतमराजन्यत्र प्रत्यक्सरस्वती तस्यां स्नात्वा नरपाभि साक्षात् ब्रह्ममयो भवेद् तत्तीरे वर्ददे राजन्नाम्ना वै बोधपिप्पलम् कृष्णेन यत्रोद्धवाय दत्तम् भागवतम् शुभम् तम् नत्वाभ्यर्च्य विधिवत् पृष्ट्वा श्री बोधपिप्पलम् शृणोदियो भागवतम् पुराणम् ब्रह्मसम्मितम् श्लोकार्थश्लोकपादम् वा मौनी नियतमानसः तस्य पाणौ भवेद्राजन्वैष्णवम् परमम् पदम् प्रोष्ठपद्याम् पूर्णिमायाम् हेमसिंहासमन्वितम् ददादियभागवतं स यादि परमां गतिं पुराणं न श्रुतं यैस्तु श्रीमद्भागवतं क्वचिद तेषां वृथा जन्मगदं नराणां भूमिवासिनां यैर्न श्रुतं भागवतं पुराणं नराधितो यैः पुरुषः पुराणः हुदम् मुखेनैव धरामराणाम् तेषाम् वृथा जन्मगतम् नराणाम् द्वारावत्याम् तीर्थराजम् गौमदी सिन्धुसङ्गतम् यत्र स्नात्वा नरो याधिवैकुण्ठम् विमलम् पदम् गदाश्वमेधजम् पुण्यम् गङ्गासागरसङ्गमे तस्मात् सहस्रगुणितम् गोमदी सिन्धुसङ्गमे अत्रैवोदाहरन्दीममितिहासं पुरातनं यस्य श्रवणमात्रेण पापतापात् प्रमुच्यते आसीद् गजाह्वये वैश्यो राजमार्गपधिपरः महागौरवसंयुक्तो निधीशो धनदो यथा यस्या प्रसङ्गनिरदो विडगोष्ठीविशारदः द्यूतक्रीडनकसक्तो लोभमोहमदान्विदः मृषावादिमहादुष्ट कुकर्मनिरदसदा ब्राह्मणेभ्यो न पितृभ्यो न देवेभ्यो धनम् ददौ हरिकथाम् प्रेक्ष्य दूरदूरं वै निर्ययौ त्वरम् पित्रो सेवापि न कृता पुत्रेभ्यो धनम् ददौ त्यक्त्वा भार्याम् स भिन्नो भूधनाढ्यो दुर्मधिकलः वेष्या प्रसङ्गतस्यापि धनार्थम् प्रक्षयम् गदम् अर्धम् तु तस्करैर्नीदम् किञ्चित् पृथिव्याम् गदं स्वतः पुण्येन वर्धदे लक्ष्मीः पापेन क्षीयदे ध्रुवम् एवम् स निर्धनो जातो तस्मिन् गजाह्वये रम्ये चौर्यकर्म चकारः चौर्यकर्म प्रकुर्वन्तम् बद्ध्वा तम् धामभिर्नृपः देशान् निःसारयामास शं तनुर्नृपदीश्वरः वनेऽपि निवन्सोऽपि जीवहिंसाम् चकारः दशसाहस्रम् नववर्षयदाघनः पश्चिमाम् दुदिशम् प्रागाद्वैश्यो दुर्भिक्षपीडितः वने वैमलिदसोऽपि सिंहेन तलखा ददः तदैव यमदूतास्तम् बद्ध्वा पाशैरद्धो मुखम् कशाखातैस्ताडयन्तो निन्युर्मार्गम् यमस्य च अथ कश्चिन् महान् गृध्रो मांसम् तस्य भुजस्य च गृहीत्वा कं गतः सद्य खादं चञ्चु पुटेन तं निरामिशाखगाश्चान्ये स्वामिशं जग्मुरातुराः एवं कोलाहले जादेशङ्कचिह्नादिभिकृदे न जहौ मुखदो मांसं पश्चिमां शां जगामः समेनापि गृध्रेण तीक्ष्णतुण्डेन ताडिताद् तन्मुखात् प्रपतन्मांसम् गोमदी सिन्धुसङ्गमे तीर्थप्लुदेतस्य मांसे वैश्योऽयं बादगी महान् तेषाम् पाशान् स्वयं चित्वा भूत्वा देवश्च दुर्भुजः पश्यतां यमदूतानां विमानमधिरुह्य विराजयन् दिशसर्वापरन्धामहरेर्ययौ गोमदीसिन्धुसङ्गस्य माहात्म्यं शृणुदे नरः सर्वपापविनिर्मुक्तो विष्णुलोकं प्रयादिशः इति श्रीमद्गर्गसंहितायां द्वारकाखण्डे नारदबहुलाश्वसंवादे प्रभास सरस्वती बोध पिप्पल गोमदी सिन्धुसङ्गम त्म्य नामत्रयोदशोऽध्यायः ओम् अध्यायम् फोर्टीन् रत्नाकरैवतक पर्वत माहात्म्यम् श्रीनारद उवाच द्वारावत्या समुद्रस्य माहात्म्यम् शृणुमानद सर्वपापहरं पुण्यं तत्स्नानफलदं स्मृतं माधव्यां पूर्णमास्यां योग्रदि स्नात्वा नदीपदिं नत्वा सम्पूज्य विद्धिवद्रत्नदानं करोदि तस्य देहे त्रयो देवानि वसन्तिमहीपदे यस्य दर्शनमात्रेण नरो याधिकृतार्थतां तद्देकस्पर्शनात् सद्यो ब्रह्महत्या प्रमुच्य दे यत्र यत्र गदसोऽपि तत्र तत्र च भूशुभा दृष्ट्वा तम् च मृदपापि जगद्वधकरोऽपिः चिन्नति पापटलम् परमोक्षम् प्रयाति हि रैव तस्याधशैलस्य महात्म्यम् शृणुमानद सर्वपापहरम् पुण्यम् मुक्ति भुक्ति गौतमस्य सुतो धीमान् मेधावी नाम वैष्णवः विन्ध्याचले तपस्तेऽपे वर्ष्णा वरुषाणामयुदम् शदम् तम् द्रष्टुमागदत् साक्षादपान्तर तमो मुनिः नोच च चा, चाला सनासोऽपि मेधावी तपसोत्कटः अपान्तर तमस्तम् वै शशाप क्रोधभूरिदः सदा मभक्त पापात्मन् स्वतपो बलगर्विदः शैलवत्ते स्थितिच्छात्र त्वं शैलो भवदुर्मदे इत्युक्त्वा धदे साक्षात् अपान्तरतमे मुनौ मेधावी शैलतां प्राप्तश्रीशैलस्य सुदो भवद जाति स्मरो महाबुद्धिर्विष्णु भक्ते प्रभावदः एकदा मन्मुखा श्रुत्वा महात्म्यं द्वारकापुरः प्रोवाचसोऽपि राजानं रैवदं गच्छ सत्वरं वद मत्प्रार्थनामुक्तन्तो महादीनवत्सलः सोऽयं महाबलो राजा प्रसन्नो यदि वा भवेद तेन दीदस्य मे वाक्सो भविष्यदि पुरी यदि श्रुत्वा मया विष्णुभक्तानाम् शान्तिकारिणा रैवतायासु रैवतायशु कथितम् तथोक्तम् परमम्बजः सप्रसन्नप्रह राजन्नत्र गोपिनपर्वतः तस्थापनाम् करिष्यामि समुत्पाट्य भुजा बलाद् समुन्नीयद्वारकायाम् यादे नृपसप्तमे तत्पूर्वस्मादहम् प्राप्तश्रीशैलस्य पुरे नृप कलिप्रियेणापि मया श्रीशैलाय महात्मने कथित सर्ववृत्तान्तो नृपचौर्यसमन्वितः श्रीशैलपुत्रमोहेन निर्भर्स्ये धिक्वयासीः सुमेरुम् गिरिराज्यम् च हिमवन्तम् नगेश्वरम् श्रीशैलप्राहधर्मात्मा पुत्रस्नेहसमाकुलः एको दैवेन दत्तोऽयं न पुत्रा बहवश्च मे तम् हर्तुमागते राज्ञिरैवदे वै महाबले विदेशम् याति पुत्रो मे तेन राज्ञा महात्मना पुत्रस्नेहाभिभुदोऽहम् युवयो शरणम् गतः जित्वा गम् रैवतम् शीघ्रम् ददा दातुमर्हदा दा जातेच कारण दव सुच हिमाचल शैलक्षाई पिवृत योद्धुमा जग्मुत तद भुजाभ्यात्ड्य हनुमत गिरम ऊर्धम मृत् बलाद्राजा यदा गं मनो दधे तदैवा। गतान्वीक्ष्य गिरीञ्चस्त्रास्त्रधारिणः अट्टहसं च को रोचैस्तडित्पादमिवात्मनः ननाद तेन ब्रह्माण्डम् सप्त लोकेऽर्बिलैः सह तदैव तेषां शस्त्राणि हस्तेभ्योऽन्यपदन् स्वदः निशस्त्रास्ते यदा शैला कुर्वन्तः प्रध्वनिम् मुहुः गच्छन्तम् सगिरिम् जग्नुः मुष्टिभिर्जानुभिपथि यथा पुरा हनुमन्दमनुयादामः बलम् तैस्ताडितोऽपि नृपोपरि सद्यो भक्तसहायार्धम् भगवान् भक्तवत्सलः आगत्याकाशमार्गेऽपि दत्त्वा तेजस्वगं परं मा भैष्ठेत्यभयं दत्त्वा त्वरमन्तरधीयदा गदे करौ भगवति धृत्वा मुष्टिनां वज्रपादिना सुमेजुं सन्तताडाशु वज्रैव बलवत्तरः तस्य मुष्टिप्रहारेण मेरुर्विह्वलदां गदः किमवन्तं बहुवेग पदयित्वा महीतले ममर्दपद्भ्यां चान्यांश्च विन्ध्यादीन्द्रणुम्मदः विन्ध्यादयश्च ते सर्वे पादखादेन मर्दिदाः भयभीदरणं त्यक्त्वा दुद्रुगुस्ते दिशो दशा एवं जित्वा शैलसं कं तं शैलशैलसन्निभः रैवतो विजयरा वैरानार्थे शून्यपादयद सोभूद्रैवतनामापि राजन्रैवत कोचलः हरिभक्तशैलमोख्यो द्वारावत्यां विराजते तस्य दर्शनमात्रेण ब्रह्महत्या प्रमुच्यदे स्पर्शनात् सदयज्ञानाम् फलमाप्नादिमानवः यात्रां कृत्वा च यस्या विपरिक्रम्य नदानदः भोजनं ब्राह्मणे दत्त्वा यादिविष्णोः परं पदम् युद्धि श्रीगर्गसंहितायां द्वारकाखण्डे रत्नाकरैवतकाचल माहात्म्यं नाम चतुर्दशोऽध्यायः ओम्